देवावूचुः त्रायस्वनूद्य देवेश हिरण्यकशिपोर्वधात् त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तमा उत्फुल्लपद्मपत्राक्षशत्रुपक्षभयङ्करक्षयायदिति वंशस्य शरण्यस्त्वम्भवाद्य नः भीष्म उवाच देवानां वचनं श्रुत्वा तदा विष्णुः शुचिश्रवाः अदृश्यः सर्वभूतानां वक्तुमेवोपचक्रमे श्रीभगवानुवाच भयम् त्यजध्वमरा अभयम् वो ददाम्यहम् दा तदेवम् देवाः प्रतिपद्यतमाचिरं येशोहं एषोऽहंसगणं दैत्यं वरदानेन दर्पितम् अवध्यमममरेन्द्राणां दानवेन्द्रं निहन्यहम् ब्रह्मोवाच भगवन्भूतभव्येष खिन्नाह्येते भृषं सुराः तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्यमाचिरम् श्रीभगवानुवाच क्षिप्रं देवाः करिष्यामि त्वरया दैत्यनाशनं तस्मात्त्वं विबुधाश्चैव प्रतिपद्यतवैदिवम्